अथ तृतीयः सर्गः श्रुत्वा वस्तु समग्रम् तद्धर्मार्थसहितम् हितम् व्यक्तमन्वेषते भूयो यद्वृत्तम् तस्य धीमतः उपस्पृश्योदकम् सम्यग्मुनिस्थित्वा कृताञ्जलिः प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् रामलक्ष्मणसीताभिराज्ञा दशरथेन च सभार्येण स राष्ट्रेण यत्प्राप्तम् तत्र तत्त्वतः हसितम् भाषितम् चैव गतिर्यावच्च च चेष्टितम् तत्सर्वम् धर्मवीर्येण यथावत् सम्प्रपश्यति च तथा यत्प्राप्तम् चरतावले सत्यसंधेन राण तत्साक्षत तश्य धर्म आमा तत्समास्थि पुरात्र पाणावामल तत्सव तत्व्ह्ह्ह्ह्ह्धेण सहामति अभी तत्स कर्तुमु कामार्थगुणसंयुक्तम् धर्मार्थगुणविस्तरम् समुद्रमिव रत्नाढ्यम् सर्वश्रुतिमनोहरम् स यथा कथितम् पूर्वम् नारदेन महात्मना रघुवंशस्य चरितम् चकार भगवान् मुनिः जन्म रामस्य सर्वानुकूलता लोकस्थ्य प्रियता क्षाति सौम्यता सत्यशीलता नानाचिरा कथाचान्याश्वासहायने जानक्या धनुष्च विभेदनम विवाद गुणांदाशरथेस्तेक राम से कैकेय्यादुष्टता विघातम् चाभिषेकस्य रामस्य च चा विवासनम् राज्ञः शोकम् विलापम् च परलोकस्य चाश्रयम् प्रकृतीनाम् विषादम् च प्रकृतीनाम् तथा गङ्गायाश्चापि सन्तानम् भरद्वाजस्य वास्तुकर्म निवेशम् तथा प्रसादनम् च रामस्य पितुश्च सलिलक्रिया पादुकाग्र्याभिषेकम् च नन्दिग्रामनिवासनम् दण्डकारण्यगमनम् विराधस्य वधम् तथा दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् अनसूयासमाख्याम् च अङ्गरागस्य चार्पणम् दर्शनम् चाप्यगस्त्यस्य धनुषोऽग्रहणम् तथा शोर्पणख्याश्च संवादम् विरूपकरणम् तथा वधम् खरत्रिशिरसोरुत्थानम् रावणस्य च मारीचस्य वधम् चैव वैदेह्याहरणम् तथा राघवस्य विलापम् च गृध्रराजनिबर्हणम् कबन्धदर्शनम् चैव पम्पायाश्चापि दर्शनम् शबरीदर्शनम् चैव फलमूलाशनम् तथा प्रलापम् चैव पम्पायाम् हनूमद्दर्शनम् तथा दृश्यमोकस्य गमनम् सुग्रीवेण समागमम् प्रत्ययोत्पादनम् सख्यम् वालु सुग्रीव वा विग्रहम् बालिप्रमथनम् चैव सुग्रीव प्रतिपादनम् ताराविलापम् समयम् वर्षरात्र निवासनम् कोपम् राघवसिंहस्य बलानामुपसङ्ग्रहम् दिशः प्रस्थापनम् चैव राक्षसी तर्जनम् चैवच्छाया ग्राहस्य दर्शनम् सिंहिगायाश्च निधनम् लङ्कामलय दर्शनम् रात्रौ एकस्यापि विचिन्तनम् आपानभूमिगमनमवरोधस्य दर्शनम् दर्शनम् रावणस्यापि पुष्पकस्य च दर्शनम् अशोकवनिकायानम् सीतायाश्चापि दर्शनम् अभिज्ञानप्रदानम् च सीतायाश्चापि भाषणम् राक्षसी तर्जनम् चैव त्रिजटा स्वप्नदर्शनम् मणिप्रदानम् सीताया वृक्षभङ्गम् तथैव राक्षसी विद्रवम् चैव किङ्कराणाम् निबर्हणम् ग्रहणम् वायुसूनोश्च राघवाश्वासनम् चैव मणिनिर्यातनम् तथा सङ्गमम् च समुद्रेण नलसेतोश्च बन्धनम् प्रतारम् च समुद्रस्य रात्रौ लङ्कावरोधनम् विभीषणेन संसर्गम् वधोपायनिवेदनम् कुम्भकर्णस्य निधनम् मेघनादनिबर्हणम् रावणस्य विनाशम् च सीतावाप्तिमरेः विभीषणाभिषेकम् च पुष्पकस्य च दर्शनम् अयोध्यायाश्च भरद्वाज समागमम् प्रेषणम् वायुपुत्रस्य भरतेन समागमम् रामाभिषेकाभ्युदयम् सर्वसैन्य विसर्जनम् स्वराष्ट्ररञ्जनम् चैव वैदेह्याश्च विसर्जनम् अनागतम् च यत्किञ्चिद् रामस्य वसुधातले तच्चोत् कव्ये वाकिर्भगवा ऋषि इशे श्रीमद् रे वाकीए आदिकाव्ये का्यलकांडे तृतीय सर्ग